सोऽवतीर्यततो राजा खड्गमुद्धृत्य निर्मलम् इेष तस्यामूर्धानं छेत्तुं परमदुर्मतिः ससान्त्वयंस्तदा कं संहसन् क्रोधवशानुगम् वसुदेवो महामतिः अहिंस्यां प्रमदामाहुः सर्वधर्मेषु पार्थिवा अकस्मादबलां नारीं हन्ता सीमामनागसीम् यच्च तेऽत्रभयं राजन् शक्यते बाधितुं त्वया इयं च शक्या पालयितुं अस्यास्त्वमष्टमं गर्भं जातमात्रं महीपते विध्वंस यतदा प्राप्तमेवं परिहृतं भवेत् एवं स राजा कथितो वसुदेवेन भारत तस्य तद्वचनं चक्रेषरसेनाधिपस्तदा ततस्तस्यां संबुवुः कुमारा सूर्यवर्चसः जाताञ्जातां स्तुतान् सर्वाञ्जघानमधुरेश्वरः अथ तस्यां समभवद् बलदेवस्तु सप्तमः याम या तम तोयमो राज विशापते दैव्यागर्भमु रोहिण्या जठ रेक्षिप आकष्य कर्षण सम्यक संकर्षण स्मृत बलश्रेष्ठतया तलदेव स्मृता पुनस्तस्यां समभवदष्टमो मधुसूदनः तस्य गर्भस्य रक्षां तु चक्रे सोऽभ्यधिकं नृपः ततःकाले रक्षणार्थं वसुदेवस्य सात्वतः उग्रः प्रयुक्तः कंसेन सचिवः क्रूरकर्म विमूेशु प्रभाव नात्ती वै उगम्य सघोषे तो जगाम सहाद्युतितमात्रुदेव्य पिता तपजह्रे पी क्रीता क्यचि मुमुक्षमाणस्तं शब्दं देवदूतस्य पार्थिवः जघानकं सस्ताम् कन्याम् प्रहसन्ती जगामसा आर्येति वासती शब्दम् तस्मादार्येति कीर्तिता एवं तं वञ्चयित्वा च राजानं स वासुदेवं महात्मानं वर्धयामास गोकुले वासुदेवोऽपि गोपेषु ववृधेब्जमिवम्भसि वा अज्ञायमानः कंसेन गूढोऽग्निरिवदारुषु विप्रचक्रेथ तान् सर्वान् वल्लवान् वर्धमानो महाबाहुस्तेजो बलसमन्वितः ततस्ते क्लिश्यमानास्तु पुण्डरीकाक्षमच्युतम् भयेन कामादपरे गणशः पर्यवारयन् सतुलब्ध्वाबलं तु सम्मतः वसुदेवात्मजः सर्वैर्भ्रातृभिः सहितम् पुनः निर्जित्य युधि भोजेन्द्रम् हत्वा कंसं महाबलः अभ्यषिञ्चत्ततो राज्य उग्रसेनम् विशाम्पते ततः श्रुत्वा युधि शूरसेनाधिपं चक्रेकं सपुत्रं तदा नृपः ससैन्यं महदुत्थाप्य वासुदेवं प्रसह्य च अभ्यषिञ्चत्सुतं